यज्ञेरवे प्रजापजः प्रजा असृजतता उपयद्भिरेवासृजत यदुपज उपयजति प्रजा एव तद्यजमानसृजते जघनार्धादवद्यति जघनार्थाद्धि प्रजाः प्रजायन्ते स्थविमतो वद्यति स्थविमतो हि प्रजाः प्रजायन्ते सम्भिन्धन्न वद्यति प्राणानामसंभ्यजायन परिजावयति यत्तर्यावर्तये दुदावर्तः प्रजा दुदाहुकस्यात्समुद्रं स्वाहेत्याहरेत एव तद्दधात्यन्तरिक्षं गच्छस्वाहेत्याहान्तरिक्षेणैवास्मे प्रजाः प्रजनयत्यन्तरिक्ष गृह्यनु प्रजायन्ते देवपुंसवितारं गच्छस्वाहेत्याहसमितृप्रसूतरेवास्मे प्रजाः प्रजनयत्यहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मे प्रजा यत्र होरात्रे ह्यनु प्रजाः प्रजायं देव यत्रावरुणो गच्छस्वाहेत्याः प्रजास्वेव प्रजादासु प्राणापानु दधाति सोमं गच्छस्वाहेत्याः सौम्या हि देवतया प्रजायज्ञं गच्छस्वाहेत्याः प्रजादेव यज्ञया करोति छन्दागुंसि गच्छस्वाहेत्याः पशवै छन्दागुंसि पशो ने वा वरुन्धेद्या वा पृथिवी गच्छस्वाहे जादेव प्रजाताद्या वा पृथिवेभ्यामुभयतः परिगृह्णा दो दिव्यजं गच्छस्वाहेद्याः प्रजाभ्यदेव प्रजाताभ्यो वृष्टिं न्यच्छत्यग्निं मयि निश्वानरं गच्छ स्वाहेत्याः प्रजादेव प्रजाता अस्यां प्रतिष्ठापयति प्राणानां वा देशो मद्यति यो मद्यति गुरस्य मनो मेहार्दि गच्छत्याः ृच्छदि हृदयशोलमभिसमेजागुम् हृदयशोलमुद्वासयत् पृथिवीगुम् शुचात्पजद् लक्षपः शुचात्मजुष्कस्य चार्द्रस्य च सन्धाविद्वासयत्युभजश्च शान्त्यै यन्विष्यात् तन्ध्यायच्छुचैवे मद्भजति देवावे यज्ञमाग्नेभजन्त ततो यदत्यशिष्यतदब्रुवन् वसतुमिति तद्वस देवरेणाम् वस देवरि द्वन्दस्मिन् प्रातम् न समशक्नुवन् तदप्सुप्रामेश जन्ता वस देवरे रहवन् वस देवरेर्गृह्वादि यज्ञा वेरे यज्ञमेवालभ्य गृहे त्वसृहेतारभ्योऽस्य यज्ञं यच्छन् द्याज्योतिष्या वा गृह्णे याद्धिरण्यं वा वधाय सुप्राणामेव गृह्णाति दो वा ब्राह्मण बहुदचे तस्य कुम्भ्यानां ेवरे गोपस देवरे गृह्णादि पशवो वेपसदेवरेपम् तिष्ठम् गृह्णेदान् निर्मादुगास्मा पशवस्य प्रदेपम् तिष्ठम् गृह्णादि प्रतिरुध्यैवास्मे पशुन् गृह्णादेन्द्र वृत्रमहन् सो त्यमुच्य तथा वहन्तेजागेवमेवास्तासामेव गृह्णाति नान्तमाभन्त्येरती गृह्णेयाद्वणगृहे तावस्थावराय सा वराणाहं गृह्णेयाद्विशति तस्मापो दिवादृशक्तं सन्धो गृह्णाच्च होरात्रविष्मतेष्कृतायामेव गृह्णादि हविष्मा ्या हस्तचक्राणामेव गृह्णाच्चष्टभागृह्णादि वाग्वाहनष्टचे वैरा सर्वदा गृह्णादि चतुष्पदयर्चा गण्ठादि त्रिः साधयति सप्तसंपद्यन्ते सप्तपदशकरे पशवश्चकरे पशो नैर्वाग्वेष्मै वै लोकायतेहवने यज्ञाद्य उपसादय तस्मिन् लोगे पुसुमान् स्यादिताह वनेयुष्मलोगे पुसुमान् स्याद् rupasādagatva bhaya raimaina rakala ङ्गराजि सर्वतः परिहरतिरक्षेतदाग्ने स्वमुपवासद्रेतद्वै यज्ञस्यापराजितस्यापराजितङ्गदेवै मातुपवासय तिज रक्षे यज्ञस्य वितदस्य न मनम् गवचाराय न ह्येता एलयन्त्याति तेजसवनात् परिशेरे यज्ञस्य सन्तत्यै भवादिनो वदन्ति सत्त्वा अध्यजस्याद्य सममुपावहरन् सर्वाःभ्यो देवताभ्यमुपावहरे दितिहृदे त्वेत्याः मनुष्येभ्य देवैते नगरोति मनसे त्वेत्याः पितृभ्य देवैते नगरोदि दिवे त्वा सूर्यायत्वेत्याः देवेभ्य देवैते नगरोत्येतापतिर्वै देवतास्ताभ्यदे सर्वाव्यमुपावहरति पुरावाचः प्रवतितोवाकमुपागतौ वत्येवरुन्धे दि पोग्ले दिव्याहरति यज्ञो वा आपो यज्ञमेवाभिवाचं विसृजति सर्वाणिशं वा यन्दाः पशवोऽपि छन्दांसि पशूनेवावरुन्धे गायत्रिया तेजस्वामस्य परिदध्या त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभाः न्नमस्य श्रृमा त्वज्ञथा हवं मयिप्रसूतरे मेत्रावरुणस्य चमसाध्यवेत्याहमित्रावरुणौ वा अपान्नयतारोताभ्यामेवैना अच्छैति देवी नापो अपान्नपादि ैवैनानिष्पीडृह्णात्यष्कृतानामेवाभिकृतायां गृह्णातिकादृशिरसेत्याहसमलमेवासामपप्लावयति समुद्रस्य मोक्षित्या उन्नजयित्याह तस्मादज्यमानाः पीडमाना आपोणक्षीरं धुणैर्ज्ञस्य चात्वालं यज्ञो वसदेवर्होत्र च मसञ्च मैत्रावरुण च मसञ्च सज्ञस्पर्श स्वा देवैनायोः प्रजनयत्य इत्याहोमनन्नमरुते मा पश्यति वा वै तदाहयद्यज्ञष्टो मो जहोदि यद्युक्त्य परिधौ निमाहाष्टि यद्यतिरात्रो यजर्वदम् प्रपद्यते यज्ञक्रतोनाम् जालत्यै देवस्य त्वासिविदुःप्रसव यदि ग्रावाणमादत्ते प्रसूर्जाश्विनाः बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यु आस्ताहं भूष्णो हस्ताहाभ्यामित्याहयत्यै पशवो वै सोमो व्यान उपागुं स्वसवनो यदुपागुं सुसवनमधिमिमेते यानमेव पशुषु दधातेन्द्रायतेन्द्रायत्वेतिमिमेत इन्द्राय हि सोमः पञ्चकृत्वो जतुषामि पञ्चा स्थला पङ्क्तिः पार्दो यज्ञो यज्ञकृत्वस्तूष्णेन्द्रम्पद्यन्ते दशाक्षरा विराडन्नं विराजैवान्नाद्यमवरुन्ध स्वात्रास्थलुर्याहेशवातिमाच्छयत्ते है सो सोमदिविद्यो हैभ्यज वैनं ैराजागपागुदगरात्याह दिव्यं दिशदेवास्मा अवरुन्धेश्वरेत्याहकामुकायेन वेदजत्ते सोमालाः चिवेत्या सोमस्य सोम पीचोज देवं वेजन सौम्यामार्त्यमाच्छ जिघ्न निराजेतत्सो ञ्जल्वन्त्यपुंसोऽनपगृन्थादित्रायत एवैनम् प्राणवागुंशवः पशवः सोमो पुंसोऽन्पुनरपि सृजति प्राणानेव पशुसृधाति द्वौ द्वामपि सृजति तस्माद्वौ प्राणो मादेशयतु पागुं शरयतु पागुश्च ग्राग्रहा गृह्यन्ते प्राणमेव न प्रयन्त्यरुणाः स्वाहौपदेश्य प्रातस्य वन एव यज्ञं सज्ञस्थापयामि च मुवाचास्कन्धाया सल्वा हुर्गायत्रे वावनेनादि स्मादष्टावष्टौ गुरुत्वभिषुक्यं ब्रह्मवादिनो वदन्ति पवित्रवन्तोन्यत्रिति वाक्पवित्रयस्पवाचिन्नित्याह वाचैवेयति भ्रमागुंसुभ्यामित्याह विष्माश्येतांसूयौ सोमस्य गभस्ति पूतयित्याह गमस्त्य नाश्य देवो देवानां पवित्रमसीत्याह देवो जेषत्याहेष भागश्चेभ्यजेन गृह्णा निः स्वाङ्कृतोऽसीत्याः प्राणमेव स्वकृतमधुमतेषस्तु सर्वमेवास्म यदद्भ्यस्त विश्वेभ्यस्वेन्द्रियेभ्यो युज्येभ्यः पार्थिवेभ्यजित्य ोभयेः श्वेमदेव मनुष्येषु प्राणान्धस्त्वाश्वित्याह मनयैवाश्मिकुर्वन्तरिक्षमन्दित्याहान्तरिक्षदेवत्यो हि प्राणस्वाहासूर्यादेत्याह प्राणा प्रेणादियदि कामजय तमर्षः पर्जन्यस्यादिति नेताहस्य नृज्या दृष्टिमेव यदि कामजय कामर्षुकस्यादित्युक्तानेन निवृज्या दृष्टिमेव गच्छति यज्ञभिजरे दमुञ्जह्य सत्त्वाहोष्यामीति ब्रूयादाहुतिमेवैनं प्रेर्सनहन्ति यदि दूरे स्यादातमितोस्तिष्ठे प्राणे सादयामीति सादजेत सन्नो वै प्राणः प्राणमेवास्य साधयति षड्भिरंसुभिः पवयति षड्वाभिःपवजति त्रयिमे लोकायति रेव पवजति ब्रह्मवाजिनो वदन्ति कस्मात् सत्या त्रयः पशोनागुं हस्तादाना इति यत्रिरुंशुभिं हस्तेन विगृह्णादिवस्मात्रयः पशोनागुं हस्तादानाः पुरुषो हस्ति रहा देवा वै यद्यज्ञे कुर्वत सुरा अकुर्वतते देवा उपागुंसौ यज्ञकं सद्गस्थाप्यमपश्यन्तमुपागुंसौ समस्थापयन्ते सुरावज्रमुद्यत्य देवानभ्यायन्तरे देवा बिभ्यत इन्द्रमुपाधावन्ता इन्द्रोऽन्तर्जामेणान्तर्धत्त तदन्तर्जामस्यान्तर्जामत्वय्यदन्तर्जामो लिह्यते ध्यातु्यामेव तद्यजमानोन्तर्धत्ते स्ते तथा विद्यावा पृथिवी अन्तरु क्षमित्याहै मन्यन्तेन्द्रो वा इदमभूद्यस्मयितेः ब्रुवन्मघपण्डनु महाभजेति सजोषा देवैरवरेश्वरैश्चेत्यै चैव देवा चामहेदानुभयानन्दा सजोषा देवैरवरेश्वरैश्चे नुपजानन्वा भजत्यन्तर्जामे मघवन्मादयस्वेत्या हयज्ञादेव युपजाम गृहीतोऽसेत्याः पानश्च धृत्ये यद्भावपवित्रौ गृह्ये जातां प्राणमपानो निर्धृच्छे क्रमायुगस्या पवित्रान्तर्जामो युष्यते प्राणापानयोर्विधृत्ये प्राणापानौ वा जौ ्यानभूपागुंसुसमनौ यम् कामजय क्रमायुकस्यादित्यसव्यस्पृष्टौ तस्य सादजयज्ञानेनैवास्य प्राणापानो विच्छिन्नत्य ताजक्रमेयते यम् कामजयत सर्वमाजुलयादिति सव्यस्पृष्टौ तस्य सादज ज्ञानेनैवास्य प्राणापानो सन्तनोति वाग्वायशाजते इन्द्रवायवोददे इन्द्रवाय वा ग्रहा ग्रहादृश्यन्ते वाच मे वा न प्रयन्ति ्राजानसो ब्रवेद्वरं वृणैमदग्राय ग्रहागृह्यान्ता तस्मादेन्द्रवायवाग्राग्रहागृह्यन्ते तमघ्नान् स भो यत् तन् देवानोपाधिक्नुवन् देवायमब्रुवन् निमन्नस्व दजयति सोऽ ब्रवेद्वरं वृणै मद्देवत्याहन्यपात्राह्युच्यान्ता इति तस्मान्नादे मद्यादि ुच्यन्ते वायुलेवास्वदयत्तस्माद्यत् कूयति तत्प्रवादे विषयन्ति वाजुलिहि तस्य पवयिता स्मदयिता तस्य विग्रहणम् न विन्दन् वृणा असमजा विगृह्णेध्वम् अद्येवत्या देव सोमासन्ना असण्तोस्तेन या निहिता ैतानि सम्भूता निजानि ब्रह्मजा साक्षात्तान्यस्यैतस्मादेवमाहवान् वैपरात्कृता वदत्ते देवादिन्द्रमब्रुवन्निमान्नब्रवेश्यन् वा देवा सैवैष वाजवे च सहगृह्या सा यस्मादैन्द्रवाजव सह गृह्यते तामिन्द्रमझतो वक्रं यं व्याकरोत्तस्मादिजं वा गुज्यते तस्मात् सकृदिन्द्राय मध्यतो विर्वाय लोहि समरा वर्णेता मित्रं देवाब्रुपन् सोमगुं राजानगुंहनामे दिसोः ब्रवेन्नाहगुं सर्वस्य वा अहं मित्रमस्मीतितमब्रुपनहनामैवेदिसो ब्रवेज्वरं वृणैपयसैवमे सोमग्रश्रेणन्दि तस्मान् मैत्रावरुणं पयसाश्रीणन्दितस्माक्रामन्मित्रस्सन् क्रोरमकरिति क्रोरमिव खलु वा यशकरोतिजस्सो मे जन्मेत्रावरुणं प्रयसाश्रेणापि पशुभिं समर्थयति पशुभिजमानं पुरा खलु वाषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीतवरुणं देवा अब्रुवन्त्वं सभुवासो राजानमेति चैवै मित्राय च सह गृह्याताय तस्मान् मैत्रावरुणस्य हृह्यते तस्माद्राज्ञा राजा नंशभुवान् दिवैश्येन वैश्यं शूद्रेण शूद्रं न वा इदं दिवा नक्तमासेदव्यावृत्तं दे देवामित्रावरुणा बब्रुवन्निदं नब्रुवाम्बरं वृणावहाकदेवात्पूर्वो ग्रहो स्याता यदि तस्मादेन्द्र वायवः पूर्व मेत्रावरुणा गृह्यते मित्रा हरजनयद्वरुणो रात्रिम् ततो वा यदम् यौ्छन्मेत्रावरुणा गृह्यते यस्ये यज्ञस्य शिरोः छिद्यतते देवा अश्विनावब्रुवन् भृढजौ वै स्थयितं यज्ञस्य शिलः प्रतिधत्तमिति तावब्रुतां वरं मृणावहये ग्रह एव नावत्रापि दृश्यतामिति ताभ्यामेतमाश्विनमग्रन्थन्ततो वैदौ यज्ञस्य शिलः प्रत्यधत्तां यदा वा इव मनुष्यचरोचादिति तस्मा ब्राह्मणेन पेषजन्न ष् पवमाने नवयित्वाभ्यामेतमाः स्विन गृह्णन्तस्माद्बेष्पवमाने स्तुतः पवमान उपसद्यः पवित्रं वै बहेष् पवमान आत्मानमेतपवयवेतयो श्रेधा भेज्यं विङ्गृतीयमप्सुतृतीयं ब्राह्मणे तृतीयं ब्राह्मणं दक्षिणतो द्य भावभयषजन्त न करोति समर्थुकमस्य कृतं भवति ब्रह्मपादि वदन्ति कस्मा सत्यादेकपात्रा द्विदेवत्या द्विपात्रा हूयन्त यद् यदेकपात्रा दृश्यन्ते तस्मादेकोऽरतः प्राणाद्विपात्रा हूयन्त तस्माद्वौ द्वौ भयिष्टाः प्राणा प्राणावायते यद्विदेव प्राणानन्तर्दधितक्रमायुगस्याद्विदेवत्या भक्षय त्वे डामुपह्वय प्राणानेवात्मन् धित्वा पशोनुपह्यदेवाद्वायीन्द्रवायवश्चक्षरु नेत्रा वर्णश्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात् पुरस्ताद् पुरस्तावरुणन्दस्माच्चक्षुषा पश्यति सर्वदः परिहारमाश्विनन्दस्मा श्रोत्राणि प्राणावत्यानि पात्राणि साधयति तस्मादरिक्ता अन्तरतः प्राणायतः खगवे यज्ञस्य विदतस्य न क्रियते तदनु यज्ञं रक्षादस्य पात्राणि साधयति क्रियमाण तद्यज्ञस्य शये रक्षसा वनम् भवचाराय दक्षिणस्य हरिधानस्योत्तरस्याम् अर्थण्या साधयति वाचन्दत्यानात् परिशेरे यज्ञस्य सन्तते बृहस्पतिदेवाम् पुरोहित आसीच्छण्डा मक्कावसुराम् ब्रह्मण्वन्तो देवा आसन् ब्रह्मण्वन्तोऽसुरास्ते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 शक्मवन्नभिन्ते देवाः शण्डामर्कामुपामन्त्रयन्तताब्रूतां वरं वृणावहैग्रहावेव नामत्रापि गृह्ये तामितिताभ्यामेतौ शुक्रामञ्चिनामगृह्णन्ततो देवा अभवन्वरा सुरायस्यैवं विदुषः शण्डामर्कौ सहामुने इब्रूजाद्यौ सहात्यवात्मन इन्द्रजहोरिन्द्रेदानि रूपाणि वा आदित्यशुक्रश्चन्द्रमा मन्सीह्य प्राञ्चौ निष्क्रामतस्तस्मात् प्राञ्चौ यन्तौ न पश्यन्ति प्रत्यञ्चावावृत्यजो हतस्तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति चक्षुषीव ुप्रा मन्सिनो नासिकोत्तरीराचीराहुदे पुरस्तादसुरासन्ताः प्रानुदन्त प्राचीर प्रत्यन्तौ शुक्रापन्थिनौ पश्चाच्चैव पुरस्ता भ्रातृविदते तस्मात् प्रजाचेः प्रजाः प्रवीयन्ते प्रदेचेः जायन्ते शुक्रापन्थिनौ वा अनु प्रजाः प्रजायन्ते त्रिष्टाद्याश्च सुबीरा प्रजा प्रजन जन्मनिः शुक्र शुक्रसौ चषा सुप्रजा प्रजाः प्रजन जन्मसि मन्सि सौ चषेत्याहैता या अद्रिरेकास्व प्रजाया आद्याय एव यत्तत्पराप तद्विकङ्कम् प्रामिषङ्कते पात्रं भवति सर्गभि श्रीमादि प्रजापतेरे भरति ब्रह्मवायुमा वदन्ति न्मन्थिपात्रकम् स नाश्नुलिकार्तपात्रकम् हेतिभ्यूयात् यदस्म वेदान्तर्यदार्तिमाच्छत् तस्मान्नाश्नुते देवा वीर्यव्यज्ञे कुर्वततसुरा अकुर्वतते देवा आहाग्रयणाग्रा ग्रहान्ता न गृह्णततो वैदेघ्रं पर्यायस्यैवं विदुष आग्रयणाग्राग्रहा गृह्यन्ते ग्रमेव समानानां पर्येतिरुग्णवत्यश्चाध्यादूयवतो गृह्णीयाध्यादूयश्चैव रुक्त्वा ग्रगं समानाम् पर्येतिरे पर दिव्येकादशस्थेद्याहैतावती ै देवस्ताभ्यदेवैुं सर्वाभ्यो गृह्णाच्येष देवभ्यस्त्वा देवे चेत्या ह वैश्वदेवश्चेतदेवतया वाग् वै देवे ज्यो क्रामज्ञाया चमा च देवा वाच्यमक्रान्तायां तूष्णे ग्रहाण न्दस्मादासृज्यते यत् तूष्णीं पूर्वे ग्रहा गृह्यन्ते यथासारि यदि मास्यामेत्युपागसजत्येव मे नृहीत्वा यज्ञमारव्यचं विसृजते भिचिहति तस्मारभिचिहत्यात्मा वा यज्ञस्य यदा गृह्णात्यात्मन्नेव यज्ञनात्युपृष्टादानयतिरैतजैवस्तादुपगृह्णाति प्रजनयत्येव तद्ब्रह्मवादिना वदन्ति यस्माध्यायत्रैव निष्ठा सुन्दनागुं सती ै गायत्रयनस्तमेव सफलानि वहति तस्मात्समपादङ्गौरभिवर्तते